एवं सर्वान्वशे चक्रे जरा सन्धश्यता वरान् तं दुर्बलतरो राजा गथं पार्थ उपैष्यति प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे पशूनामिव का प्रीतिर्जीविते भरतर्षभा क्षत्रियशस्त्रमरणो यदा भवति सत्कृतः ततस्ममागधं सङ्ख्ये प्रतिबाधेम यद्वयम् षडशीतिस्समानीताः शेषा राजंश्चतुर्दश जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते प्राप्नुयात् यशोदीप्तं तत्र यो विघ्नमाचरेत् जयेद्यश्च जरासन्धं स सम्रान्नियतं इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि कृष्णवाक्ये पञ्चदशोऽध्यायः